शिवगीता दशमोऽध्यायः श्रीराम उवाच भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते जायते वा कुतो जीवः स्वरूपं चास्य किं वद देहान्ते कुत्र वा गत्वा वा कुत्र तिष्ठति कथम् आयादि वा देऽहम् पुनर्नायादिवा वद श्रीभगवानुवाच साधुपृष्टं महाभागगुह्याद्गुह्यतरं हि यत् देवैरपि सुदुर्ज्ञेयम् इन्द्राद्येर्वा महर्षिभिः अन्यस्मै नैव वक्तव्यम् मयापि रघुनन्दन त्वद्भक्त्या अहं परं प्रीतो वक्ष्याम्यवहितः शृणु सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः परमात्मा परं ज्योतिः अव्यक्तो व्यक्तकारणम् नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहम् निरञ्जनः सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च नाहम् सर्वेन्द्रियग्राह्यः सर्वेषाम् ग्राहकोऽह्यहम् ज्ञाताहम् सर्वलोकस्य मम ज्ञाता न विद्यते दूरः सर्वविकाराणाम् परिणामादिकस्य च यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्म मां ज्ञात्वा न बिबेति कुतश्चन यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति माम्च च सर्वेषु भूतेषु ततो न विजुगुप्सते यस्य सर्वाणि भूतानि यात्मैवाभूत् विजानतः को मोहस्तत्र कश् शोक एकत्वमनुपश्यतः एष सर्वेषु भूतेषु गूडात्मा प्रकाशते दृश्यते त्वक्रिया बुद्ध्या सूक्ष्म्या सूक्ष्मदर्शिभिः अनाद्यविद्यया युक्तः तथाप्येकोऽहम् अव्ययः अव्याकृतब्रह्मरूपो जगत्कर्ताहमीश्वरः ज्ञानमात्रे यतादृश्यम् इदम् स्वप्ने जगत्त्रयम् तद्वन्मयि जगत्सर्वम् दृश्यते अस्ति विलीयते नानाविद्यासमायुक्तो जीवद्वेन वसाम्यहम् पञ्चकर्मेन्द्रियाण्येव पञ्चज्ञानेन्द्रियाणि च मनोबुद्धिरहङ्कारः चित्तम् चेति चतुष्टयम् वायवः पञ्चमिलिता यान्ति लिङ्गशरीरता तत्र अविद्यासमायुक्तम् चैतन्यम् प्रतिबिम्बितम् व्यावहारिकजीवस्तु चेत्रज्ञः पुरुषोऽपि च स एव जगताम् प्रोक्ता अनाद्ययोः पुण्यपापयोः इह अमुत्रगती तस्य जाग्रत्स्वप्नादिभोक्तृता यथा दर्पणकालिम्ना मलिनम् दृश्यते मुखम् तद्वत् अन्तःकरणगैर्दोषैः आत्मापि दृश्यते परस्पर अध्याशवशात्स्यात् एकी एकीभाव अभिमानेन परात्मा दुःखभागिव मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः दृश्यन्ते मूढचित्तस्य न हि आर्द्रास्तापकारकाः तद्वद् आत्मापि निर्लेपो दृश्यते मूढचेतसाम् स्व अविद्याख्य आत्मदोषेण कर्तृत्वादिकद्धर्मवान् तत्र च अन्नमये पिण्डे कृतिजीवोऽवतिष्ठते आनकाग्रं व्याप्यदेहं तद्ब्रुवे अविहितः शृणु कोऽयं तदभिधानेन मांसपिण्डो विराजते नाभेरूर्ध्वम् अधः कण्ठाद् व्याप्य तिष्टति यः सदा तस्य मध्ये अस्तिहृदयम् सनालं पद्मकोशवत् अधोमुखं च तत्रास्ति सूक्ष्मम् सुषिरम् उत्तमं दहराकाशम् इत्युक्तं तत्र जीवो अवतिष्ठते बालाग्रशतभागस्य तथा कल्पितस्य च वाघो जीवः सविज्ञेयः स च अनन्त्याय कल्पते कदम्बकुसुमोद्बद्ध केसरा इव सर्वतः शरीरकम् हितम् बलम् प्रयच्छन्ति तस्मात्तेन हिता स्मृताः द्वासप्ततिसहस्रैस्ताः सङ्ख्यातायोगवित्तमैः हृदयात्तास्तु निष्क्रान्ता यता अर्काद् रश्मयस्तता एकोत्तरशतं तासु मुख्या विष्वग्निर्गताः प्रतीन्द्रियं दशदश निर्गता, निर्गता विषयोन्मुखाः नाड्यः सर्वादिहेतुत्वात् स्वप्नादिफलभुक्तये वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलम् तथा अनन्त एक ऊर्ध्वगा नाडी मूर्धपर्यन्तम् अञ्जसा सुषुम्ना इति समादिष्टा तया गच्छन् विमुच्यते तया उपचितचैतन्यं जीवात्मानं विदुर्बुदाः यथा राहुः अदृश्योऽपि दृश्यते चन्द्रमण्डले तद्वत्सर्वगतोऽप्यात्मा इङ्गदेहे हि दृश्यते दृश्यमाने यथा कुम्भे घटाकाशोऽपि दृश्यते तद्वत्सर्वगतोप्यात्मा लिङ्गदेहेऽपि दृश्यते निश्चलपरिपूर्णोऽपि गच्छतीत्युपचर्यते जाग्रत्काले यथा ज्ञेयम् अभिव्यक्तविशेषदी व्याप्नोति निष्क्रियः सर्वान् पाणुर्दशदिशो यता नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये इदं लिङ्गशरीराख्यम् आमोक्षं न विनश्यति आत्मज्ञानेन नष्टेऽस्मिन् सा विद्ये स्वशरीरके आत्मस्वरूप अवस्थानं मुक्तिरित्यभिधीयते उत्पादिते गटे यद्वते त्वम् पृच्छति घटे नष्टे हिताकाशः स्वरूपेण अवतिष्ठते जाग्रत्कर्मक्षयवशात् स्वप्नभोग उपस्थिते बोधावस्थां तिरोधाय देहादि आश्रयलक्षणां कर्मोद्भावितसंस्कारः तत्र स्वप्नरिरंसया अवस्थाम् च प्रयातिन्याम् मायावी च आत्ममायया घटादिविषयान् सर्वान् बुद्ध्यादिकरणान् च भूतानि कर्मवशतो वासनामात्रसंपितान् एतान् पश्यन् स्वयम् ज्योतिः साक्षी आत्मा व्यवतिष्ठते अंतकना वासनासमतासनाक्षिव तेना परात्म वासनापंच दृश्यते कर्मचो जाग्रदूमो यता तत्कर्म क्रियात्मक निशेष बुद्धिसाक्ष्यामा स्वयमेव प्रकाशते वासनामात्रसाक्षित्वम् साक्षिणः स्वाप उच्यते भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् नेदी यस्वाद्वयस्याद्ये स्वप्नं प्रायप्रपश्यति मध्ये वयसि कार्कस्यात् करणानाम् इह आर्जितः वीक्षते प्रायश वासना वासनाकर्मणोर्वशात् यासु परलोकं तु कर्मविद्यादिसम्भृतम् भाविनो जन्मनोरूपम् स्वप्न आत्मा प्रपश्यति यद्वत्प्रपतनाश्ये नः श्रान्तो गगनमण्डले आकुञ्च्यपक्षौ यतते नीडे निदेनायनीः एवं जाग्रत्स्वप्नभूमौ श्रान्त आत्मा अभिसञ्चरन् आपीतकरणग्रामः कारणेन एति च एकताम् नाडीमार्गैरिन्द्रियाणाम् आकृष्य आदाय वासनाः सर्व्वा कार्य विज्ञान आत्मा विलीयते ईश्वराख्ये अव्या अत यता सुखम भवत्न प्रपंच विलय तथा च आत्मन योषि काम्यम तंभाते स आनन्दमयो बाह्यो न अन्तरः केवलस्तथा प्राज्ञात्मानम् समासाद्य विज्ञानात्मा तथैव सः विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः अविद्या सूक्ष्मवृत्त्या अनुभवत्येव सुखं यथा तताहम् सुखमस्वाप्सम् नैव किञ्चित् अवेदिशम् अज्ञानमपि साक्ष्यादी वृत्तिभिच्च अनुभूयते इत्येवम् वृत्त्यभिज्ञापि पश्चात् तस्योपजायते जाग्रत्स्वप्नश्रुक्त्याख्यम् एवेहामुत्रलोकयोः पश्चात्कर्मवशादेव विस्फुलिङ्गा यथानलात, जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु पयपूर्णो गटो यद्वत् निमग्नः सलिलाशये तैरेवोद्धत आयाति विज्ञानात्मा तथैत्यजात् विज्ञानात्मा कारणात्मा तथा तिष्ठन् तथापि सः दृश्यते सत्सुतेष्वेव नष्टेष्वायादि अदृश्यताम् एकाकारोऽमा तत्तत्कार्येष्विव परपुमान् ऊटस्थो दृश्यते तद्वत् गच्छति आगच्छतीव सः मोहमात्र अन्तरायत्वात् सर्वं तस्योपपद्यते देहात् अतीत आत्मापि त्वयम् ज्योतिःस्वभावतः एवम् जीवस्वरूपं ते प्रोक्तम् दशरथात्मज इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे शिवराघवसंवादे जीवस्वरूपकथनम् नाम दशमोऽध्यायः